ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं ट्वेन्टिफैव् पिशङ्गपलायनम् ततश्रुत्वा वधन् तेषां तपोबलवतामपि न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः एकान्ते मन्त्रयामास आहूय महोदरौ भण्डः प्रचण्डशैण्डीर्यकाङ्क्षमाणो रणे जयम् युवराजोऽपि सक्रोधो विषङ्गेण यवीयस भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत अत्याप्तैर्मन्त्रिभिर्युक्थकुटिलाक्षपुरःसरैः ललिदा ललित विजय मंत्र क्वधिताश्य भंड उवाच अहोबदुलभ्रंश सामयातसुरद्वीषा उपेक्षा मधुना कर्म प्रवृत् बलवान्वी मद्भृत्यनामे विद्रवंद दिवकस तादृशानामिहास्माकमागतोऽयं विपर्ययः करोति बलिनं क्लीबं धनिनं धनवर्जितं दीर्घायुषमनायुष्कं दुर्धादा भवितव्यता क्व सत्त्वमस्मद्बाहुनां क्वेयं दुर्ललितावधूः अकाण्ड विधिनाकृतोयं। निष्ठुरो विधिः सर्पिणी माययोदग्रास्तं या दुर्घटशौर्यया अधिसङ्ग्रामभूचक्रे सेनान्यो येव विनिबाधिताः एवमुद्दामदर्पाढ्या वनिता कापि मायिनी यदि सम्प्रकरत्यस्मान्दिग्बलं नो भुजार्जितम् किमं प्रसङ्गं वक्तुं च जिह्वा जिह्वेदि मामही वनिता किमु मत्सैन्यं मर्दयिष्यति दुर्मदा तदत्र मोलच्छेदाय तस्य विधीयताम् मया चारमुखा ज्ञाता तस्या वृत्तिर्महाबला सर्वेषामपि सैन्यानां पश्चादेवावतिष्ठते अग्रतश्चलितं सैन्यं हयहस्तिरधादिकम् अस्मिन्नेव ह्यवसरे पार्ष्णिग्राहो विधीयतां पार्ष्णिग्रहमिमं कर्तुम् शंगश्चुरो भवद तेनादोन्मदा बहुसंग्रामुर्मदा दश पंच चेना सहयां युयुत्सया पृष्ठ पिरीस्त न तथा सन्धे पुनः अल्पस्तु रक्षिता वै सवासौ सुनिग्रह अतस्त्वं बहुसन्नाहमाविधाय मदोत्कडः विषङ्गगुप्तरूपेण पार्ष्णिग्राहं समाचर अल्पीयसी त्वया सार्धं सेना गच्छतु विक्रमाद सज्जाश्च लन्दुसेनान्यो दिक्पाल विजयोद्धताः अक्षौिण्य सेनानां दश पंच चल गुप्तवेशस्ता दुष्टा सन्नीपत दृढ़ जही सचक्रीनाभूता महीयसी तस्ूलनाशन शक्रिवृंद विनश्यति कन्दच्छेदेशरोजिन्या दलजालमिवाम्भसि सर्वेषामेव पश्चाद्यो रथश्चलदिभासुरः दशयोजनसम्पन्ननिजदेहसमुच्छ्रयः महामुक्तातपत्रेण सर्वोध्वपरिशोभितः वहन्मुखर्विज्यमानं चामराणां चतुष्टयम् उत्तुङ्गकेतु सङ्घादलिखिताम्बुधमण्डलः तस्मिन्न्रथे समयादि सादृष्टा दृष्टा हरिणक्षणानिभृतं सन्निपत्यत्वं चिह्नेनानेन ना लक्षितां ताम् विजित्य दुराचाराम् केशेष्वाकृष्यमर्दय पुरतश्चलिदे सैन्ये सत्त्वशालिनी सा वधूः स्त्रीमात्ररक्षा वशमेष्यदि सत्वरं भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा शृणु युद्धे आध्यो मदनको सा ह्यकार्यम तै आद्यो मदन गो नाम दीर्घजिहोतीय हुबको हुलुमुलु कक्ल कक्िवाह धुक्ल पुंड्रकेतु चंडबाच कुक्कु जम्बुकाक्षो जम्बनश्च तीक्ष्णशृङ्गस्त्रिकण्टकः चन्द्रगुप्तश्च पञ्चैते दशचोक्दाश्चमूवराः ये कैकाक्षौहिणीयुक्ताः प्रत्येकं भवदा सहा आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः परस्य कटकं नैव यथा जानादिदे गतिं तथा गुप्तसमाचारपार्ष्णिग्राहं समाचर अस्मिन् कार्ये सुमहदां प्रौढिमानं समुद्वहन् निसङ्गत्वं हि तपस्य जयसिद्धिमनुत्तमाम् इति मन्त्रितमन्त्रोऽयं धुर्मन्त्री भण्डदानवः विशङ्गं प्रेषयामास रक्षिदं सैन्यपालकैः अध श्रीलितादेव्या पार्ष्णिग्राहकृतोद्य मे युवराजानुजे दैत्ये सूर्योस्तगिरिमाययौ प्रथमे युद्धदिवसे व्यदिदे लोकभीषणे अन्धकारसमभवत्तस्य बाह्यचिकीर्षया महिषस्कन्धधूम्राभं वनकोडवपुर्दुति नीलकण्ठनिपच्छायं निबिडम्पप्रथे तमः कुञ्जेषु पिण्डितमिव प्रधावदिव सन्धिषु उज्जिहानमिव क्षोणी विवरेभ्यः सहस्रशः निर्गच्छदिवशैलानां भूरिकन्दरमन्दिरात् क्वजिद्दीपप्रभाजाले कृतकातरचेष्टितं दत्तावलम्बनमिव स्त्रीणां कर्णोत्पलत्विषि येकी भूदमिव एकीभूतमिव प्रौढदिङ्नागमिव कज्जले आबद्धमैत्रकमिव स्फुरच्चाद्वलमण्डले कृतप्रियाश्लयसमिव स्फुरन्दीष्वसि यष्टिषु गुप्तप्रविष्टमिव चस्यामासु श्यामासु बहुली प्रससार क्रमेण बहुलीभोधं प्रससारमहत्तमः त्रियामावामनयना नीलकञ्चुकरोचिषा तिमिरेणावृतं विश्वं न प्रत्यपद्यद, प्रत्यपद्यत असुराणां प्रदुष्टानां रात्रिरेव बलावहा तेषां विलासोयं, तस्यामेव हि वर्धते अध प्रचलण महौौजसा धड्गलदाचाया वर्षुतिरक्षटम दमनाद्या सेनाकारीण श्यामोष्णीषरा श्याम वर्णसर्वरीदा एकत्वमिव सम्प्राप्तास्तिमिरेणाधिभूयसा विशङ्गमनुःसञ्चेलुकृदाग्रजनमस्कृतिं कूढेन युद्धकृत्येन विजिगीर्षुर्महेश्वरीं मेकडम्बरकं नाम दधे वक्षसि कङ्कणम् युद्धा वेश संग्रह तथावी सेश्याम कंचुकाकुंदुस्वानो न मदलगर्जित पणवानकोष ना विजृंभ गुप्ताचारा प्रचलिता समावृताः परैरदृश्यगदयो विष्कोशीकृतरिष्ठयः पश्चिमाभिमुखं यान्ति ललितायाः पताकिनी आवृतोत्तरमार्गेण पूर्वभागमशिश्रियन् निश्वासमपि सश्वानमकुर्वन्तः पदे पदे सावधाना सवधान प्रचलिताग्रहाय त भूयपुर दिग्भाग्वा मंदपराक्रलिता सैन्यमे वूचयत प्रपृ्छत आगत निभृत पृठे कवच्छ विग्रहा चक्रराजरथं तुङ्गं मेरुमन्दरसन्निभम् अपश्यन्नदीदीप्ताभिशक्तिभिः परिवारितं तत्र मुक्तातपत्रस्य वर्तमानामधस्थले सहस्रादित्यसङ्काश्यां पश्चिमाभिमुखीं स्थिताम् कामेश्वर्यादिनित्याभिः स्वसमानसमृद्धिभिः नर्मालापविनोदेन सेव्यमानां रथोत्तमे तां तथाभूतवृत्तान्तां मदादृशरणोद्यमां पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम् मन्वानश्चहितामेव विषङ्गस् सुदुराशयः पृष्टवंशे रथेन्द्रस्य घट्टयामास सैनिकैः तत्राणिमादिचक्रीणां हरिवारवरोधिनी महाकलकलं चक्रुरणिमाद्याः परशतं पट्टिशैर् द्रुखणैश्चैव भिन्दिपालैर्भुषुण्डिभिः कठोरवज्रनिर्धादनिष्ठुरैशक्रिमण्डलैः मर्दयन्तो महासत्त्वात्समरं बहुमेनिरे आकस्मिकरणोत्साहविपर्याविष्टविग्रहम् अकाण्डक्षुभिदं चाशीद्रधस्थं शक्तिमण्डलं विपाडैः पाडयामासुरदृश्यैरन्ध्रकारिणः ततश्चक्ररथेन्द्रस्य नवमे पर्वणि स्थिताः अदृश्यमानशस्त्राणामदृश्य निजवर्मणाम् तिमिरच्छन्नरूपाणां दानवानां शिलीमुखैः इतस्ततो बहुक्लिष्टं छन्नवर्मिदमर्मवद शक्तीनामण्डलं तेनेक्रन्दनं ललितां पूर्वानुक्रम तस्तत्र संप्राप्तं सुमखद्भयम् कर्णाकर्णिकयाकर्ण्य ललिताकोपमादधे यदस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः श्रुत्वाग्रे वर्तिनी चमूः नागच्छति तथा चक्रे कुडिलाक्षो महारणं। एवं चोभयदो युद्धं पश्चादग्रे तथा भवद चासी चास्यीचक्रीणां सैनिके महत। महत् नक्तसत्त्वाश्च दैत्येन्द्रास्तिमिरेण समावृताः इतस्ततः शिथिलतां कण्डके निन्युरुद्धताः निषङ्गेण दुराशेन धमनाद्यैश्चमूवरैः चमूभिश्च प्रणहितान्यपतञ्चत्रुकोटयः ताभिर्दैत्यास्त्रमालाभिश्चक्रराजरथोवृतः बकावली बकावलीनिबिडधशैलराज इवा बभौ आक्रान्तपर्वणाधस्ताद्विषङ्गेण दुरात्मना मुक्त एकशरो देव्या स्थालवृन्दमचूर्णयद अधतेना तेनाव्याहितेन सम्भ्रान्ते कामेश्वरी कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः ईषद् भ्रुकुटिसंसकृतं श्रीदेव्या वदनाम्बुजम् अवलोक्य दृश्योद्विघ्ना नित्या दधुरधिश्रमं नित्या कालस्वरूपिण्यप्रत्येकं तिथिविग्रहाः क्रोधमुद्वीक्ष्य सन्नाज्ञा युद्धाय दधुरुद्यमं प्रणिपत्य च तां देवीं महाराज्ञीं महोदयाम् ऊचुर्वाचमकाण्डोद्धां युद्धकौतुकगद्गदां तिधिनित्या उचुः देवदेवी महाराज्ञी वाग्रे प्रेक्षितां च मों दण्डिनीं मन्त्रनादादि महाशक्रियाभपालितां धर्शिदुकातरा दुष्टा मायाचत्मपरायणाः पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवं तस्मात्मिरसंच्छन्न मूर्तीनाम् विबुधद्रुहां शमयामो वयं दर्पं क्षणमात्रं विलोकया या वह्निवासिनी नित्या या ज्वालामालिनी परा ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ता सुरद्विषः प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् सहसैवागमिष्यामत्सवितुं श्रीपदाम्बुजम् आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनां युत्युक्ते सति नित्याभिस्तथास्त्विति जगादशा अथ कामेश्वरी नित्या प्रणम्य सम्प्रेषिताताभिकुण्डलीकृतकार्मुका साकुं तान्दुराचारान् कूढयुद्ध कृदक्षणान् बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती रेतिष्ठतपापिष्ठा मायानिष्ठाश्चिनत्मिवह कूडयुद्धपरायणाः इति तान् भर्सयन्ती सा तूणीरोत्खादसायकात् पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः सज्जकार्मुकहस्ताश्च भगमाला पुरःसराः अन्याश्च चरितानिथ्याकृत पर्वरोहणा ज्वालामि वह सज्जे युद्धे स्वते जो भी समीपयता रे अधदे दुष्टदनुज प्रदीपते युद्धम्डले प्रकाश वपुषस् मरांदम मरा क्रोधमायुराधिकशु सिंहनास्ता नृत्य हेलया महाकलकलस्तत्र सूद्युधसीम मन्दरक्षोभिताम्भोधि वेल्लत्कल्लोलमण्डलः ताश्च नित्यावलत् क्वाणकङ्कणायर्युधि पाणिभिः आकृष्य प्रामको दण्डास्ते निरे युद्धमुद्धतं यामत्रितयपर्यन्तमेवं युद्धमवर्तत नित्यानाम नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः जखानदमनं दुष्टं कामेशी प्रथमं शरैः दीर्घजिह्वं च मूनाथं भगमालाव्यदारद नित्यक्लिन्ना च भैरुण्डा कुम्बेकं खुलुमल्लकं। कक्लस्सं वह्निवासा च निजकानशरैः शतैः महावज्रेश्वरिबाणैरभिनत्केकिवाहनं पुक्लस्सं शिवदूदी च प्राकिणोद्यमसाधनं पुण्ड्रकेतुं भुजोद्दण्डं त्वरिदा समधारयद कुलसुन्दरिका नित्या चण्डबाकुं च कुक्कुरम् अधनीलपताकाचविचया च जयोद्धते जम्बुकाक्षं जृम्भणं च व्यतन्वादां रणे बलिं सर्वमङ्गलिकानित्या तीक्ष्णशृङ्गमखण्डयत ज्वाला मालिनिकनित्या जखानोग्रं त्रिकर्णकं चन्द्रगुप्तं च दुःशीलं चित्रं चित्राव्यदारद सेनानाथेषु सर्वेषु निगदेषु दुरात्मसु विशङ्घः परमक्रोद्धश्च चालपुरदो बली अध यामावशेषायां यामिन्यां खडिकाद्वयम् नित्याभिसहसङ्ग्रामं संग्रामं स दुराशयः अशक्यत्वं समुद्दिश्य चक्रामप्रपलायितुं कामेश्वरी कराकृष्टचापोद्धौर्निशितैः शरैः भिन्नवर्मा दृढतरं विषङ्गो विह्वलाशयः हावशिश् ठैर्योधैश्च सार्धमेव पलायितः ताभिर्न निगदो दुष्टो यस्माद्वध्यः स दानवः दण्डनाधा शरेणैव कालदण्डसमत्विषा तस्मिन् पलायिते दुष्टे विषङ्गे भण्डसोदरे सा विभाता च रजनी प्रसन्नाश्चा भव दिशः पलायितं व्रणे वीरमनुसर्तुमनौचिति इति ताः समरान्नित्यास्तस्मिन् काले व्यरंशिशुः दैत्यशस्त्रव्रणस्यन्ति शोणितप्लुतविग्रहाः नित्या श्रीलितां देवीं प्रणिपे दुर्जयोद्धताः युद्धं रात्रौ महद्युद्धं तत्र जातं भयङ्करं नित्यानां रूपजालं च शस्त्राक्षदमलोकयद श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षद तदा तदकनम व्रणो निवृणतामगद निमंक्रम्च्चा ललिता प्रीतिमा सदत ब्रह्मांडमुराणे उत्तरभागे हयग्रीवागस्वा ललिपाख्या विषङ्गपलायनं नाम पञ्चविंशोऽध्यायः ओम्